नमो नमः आरम्भम् करोतु कृपया नमस्तु ते व्यासविशालबुद्धे फुल्लारविन्दायत् पत्रनेत्र येन त्वया भारततेलपुणः प्रज्वालितो ज्ञानमय प्रदीपः सर्वोपनिषदो गावो दुग्धा गोपालनन्दनः पार्थो वत्सः सुधीर्भोक्ता दुग्धं ग्रीता मृतमः शान्ताकारं भुजगशनशयनं पद्मनाभं सुरेशं विश्वाधारं गगनस्रदशम् मेघवर्णम् शुभाङ्गम् लक्ष्मीकान्तम् कमलनयनम् योगी विद्वानगम्यम् वन्दे विष्णुम् भवभयहरम् सर्वलोकेकनाथम् उत्तमम् उत्तमम् नमो नमः धन्यवादः उत्तममसे तू। अस्तु सर्वेषां पुनः एकवारं स्वागतं नमो नमः नमस्कारः नमस्कारशन्ति भगिनी वीणा भगिनी नमस्कारः नमस्कार नमो नमः अधुना अस्माकं विषयः अस्ति उपसर्गाः इति तत्र उपसर्गाः अनन्तरं लट्लकाररूपं लट्लकाररूपम् उपसर्गसहितं लट्लकाररूपम् अनन्तरं भूतकाललङ्लकाररूपं लङ्लकाररूपम् अनन्तरं तव तु प्रत्ययान्तरूपम् इति सम्पूर्णतया अद्यदिने वयम् अध्ययनं कुर्मः कथमस्ति धातुः धातु धातुं धातु स्वीकृत्य लट्लकाररूपम् लत-लकार लट्लकाररूपम् अनन्तरं तस्य लकार लङ्लकाररूपम् अनन्तरं तस्य तवतु प्रत्ययान्तरूपं तथैव धातु उपसर्ग अधिकधातु उपसर्गस्य योजनां कृत्वा धातु अनन्तरं तस्य लङ् लकार लट् लकाररूपं तस्य तवतु प्रत्ययान्तरूपम् इति अस्माकम् अद्यदिनस्य विषयः कथं भवति तत पश्यामः अधुना हा वीणा भगिनी आरम्भं कुर्मः अधुना भवती वदतु गम् धातोः कृते लट्लकाररूपं किम् गच्छति वा गच्छति सत्यं हा तत्र गम् धातो गच्छ भवति अनन्तरं दा भवति अनन्तरं ध्मा पाबति भवति दृश पश्यति भवति इति परिवर्तनं तत्र सूत्राणि सन्ति परन्तु गम् धातो गच्छति योग्यम् अधुना गम् गच्छति भवति अधुना गम् धातोः लङ्लकाररूपं किं भवति सत्यं योग्यं बहु सम्यक् तद् गच्छति इति प्रथमपुरुष एकवचनान्तरूपं लकार अगच्छति इति लङ् लकार प्रथमपुरुष अस्तु लट् लकारे सः गच्छति लङ् लकारे सः अगच्छत् भूतकाले सम्यक् अधुना तव तु प्रत्यान्तरूपं गच्छ गम गमधातोः इत्युक्ते अगच्छत् अपि तत्र भूतकालं सूचयति लङ्लकार तथैव तव तु प्रत्यन्तरूपमपि भूतकाल एवं सूचयति तत् अगच्छतु वा तव पश्यन्तु अत्र हा वयं लिखामः अत्र लिखित्वा गणेश स्क्रीन् शेर् करोमि एकनिमिषं किञ्चित् पश्यन्तु वयं लिखामः गम्मधातु तस्य तव तु प्रत्यय तरुप् तवतु प्रत्ययस्य योजना किं भवति पश्यामः स्क्रीन् न दृश्यते प्लीस् वेट् अधुना दृश्यते खलु दृश्यते दृश्यते भगिनी किं किं कृतवन्त वयं गम् धातु स्वीकुर्मः गम् इस् गत्यार्थक् टु गो इति अर्थः हा तस्य गच्छ उक्तवती लट्लकार प्रथमपुरुष एकवचनान्तरूपम् तथैव लङ्लकार प्रथमपुरुष एकवचनान्तरूपम् अगच्छत् एतावत्पर्यन्तम् अधुना गम् धातोः तव तु प्रत्ययान्तरूपं त तु अत्र किं भवति ककार अपगच्छति तदेकं सूत्रं लशक्व तद्दितेन ककार अपगच्छति तवत् इति अवशिष्यति रूपं स्मरति वा अधुना अधुना इक्वेषन् गम् अधिकतवत् अत्र रूपं स्मरति वा भूतकाल अत्र मकार अन्तिमः अस्ति मकारस्य लोपः भवति गतवत् किं भवति गतवान् सः गतवान् त्रिलिङ्गे अस्ति चेत् सा गतवती सा पठितवान् पठितवती एवं सर्वं तव तु प्रत्ययन्तरूपाणि तव तु <laughs> प्रत्यन्तरूपाणि अपि भूतकालं सूचयति हा इत्युक्ते अस्माकं सम्भाषणे तत् सह अगच्छत् सः गतवान् सा अगच्छत् सा गतवती अर्थदृष्ट्या तत्र समानता वर्तते स्पष्टमस्ति सत्यं खलु अर्थदृष्ट्या समानता अधुना व्याकरणदृष्ट्या किञ्चित् तत्र भेद तु अस्ति एव यतोहि तत् तव तु प्रत्यायान्तरूपम् इति कर्तरीभूतकालवाचकधातुसाधितविशेषणरूपेण आगच्छति अगच्छत् इति क्रियापदरूपेण परन्तु सम्भाषणे अर्थदृष्ट्या तद् गतवान् अहं सः गतवान् सः अगच्छत् अर्थदृष्ट्या तत्र भेदः सम्भाषणे न सम्भवति अस्तु अधुना उपसर्गस्य योजनां कुर्मः गम एव धातु एकनिमिषम् उपसर्गस्य योजना गम् धातोः कृते उपसर्ग आ इति स्वीकुर्मः आ इति स्वीकुर्मः आ इति अस्माकम् उपसर्ग आगम इति धोति अधुना आगम वदामः चेत् लट्लकार प्रथमपुरुष एकवचनान्तरूपं किं भवितुम् अर्हति भगिनी उपसर्गम आग आगच्छत् अगच्छत् आगच्छति सत्यम् आगच्छति गच्छति आगच्छति अत्र किम् अभवत् उपसर्गस्य योजनेन तेन अर्थपरिवर्तनम् अर्थपरिवर्णम् अभवत् तत्र हि हि इस् गोयिङ्ग् तत्र परन्तु आगच्छति हि इस् कमिङ्ग् ओके अस्तु अधुना आयोगम् इति स्वीकृत्य लङ्लकाररूपं वदति वा लङ्लकारे किं भवति लङ्लकारे आप्लस् अगच्छत् वा सत्यं योग्यं बहु सत्यं सत्यं योग्यम् अत्र किं भवति आ, आ अधिक अ मिलित्वा भवती आगच्छत् वस्तुतः तत् सवर्णदीर्घ इति न तत्र आटश्च इति एकम सूत्रं कार्यं करोति वा आटश्च तेन तत्र एकपूर्वपरयोः एक आदेश इति एकं कल्पना एका कल्पना अस्ति तत् इति रूपं निष्पद्यते अस्तु तत्र विषयः कः उपसर्गस्य योजना भवेत् तत्र गच्छति एतस्य त्यजनं न कर् न करणीयम् आगच्छति अगच्छ तथैव तत् अगच्छतु तिष्ठति एव अनन्तरम् उपसर्गस्य योजनेन उपसर्ग प्राक् भवति आगच्छति इति आगच्छति अधुना अत्र गम् धातोः कृते भवती उक्तवती गतवान् पुल्लिङ्गी रूपम् अत्र आयोजनेन किं भवेत् आगतवान् आगतवान् अस्माकम् अद्यदिनस्य एषः विषयः इत्युक्ते उपसर्गस्य उपसर्गेण उपसर्गेण तत्र किं भवति लट्लकाररूपमपि सिध्यते लट्ल लव तव तो प्रत्याप अशय हाँ अग्छति कि भगिनी अगछति अस्त अनु अनू ग अनु हाँ अगछ हाँ अधुना भूतकाले किं भवितुमर्हति लङ्लकारे अनुगतवान् अत्र अनु स्थापयामः अनु अधिक आगच्छत् लङ्लकार किं भवति अनु अधिक अगच्छत् इति किं भवितुमर्हति अन्यागच्छत् अन्या वा अत्र पश्यतु उकार अस्ति खलु अत्र उकारस्थाने वकारस्य आदेश अन्व अन्व अन्व अ अ व इति अस्ति सन्धिनियमः सन्धिनियमः कः वयं दृष्टवन्तः एके एकस्मिन् दिने इको यञ्च इकः स्थाने आदेश स्मरति वा तत्र इकारस्य यकार उकारस्य मकार इति अतः उकार अस्ति तस्य वकार अन्वगच्छत् इति अधुना गतवान् कृते का स्थितिः भवितुमर्हति गतवान् अनुगतवान् भवति अनु� तत् तावत् तदेव मुख्यविषयः पश्यन्तु अत्र स्पष्टता आगच्छति चिन्ता मास्तु अनुयोग गतवान् अत्र उकारः अस्ति तत्तु योग्यम् इकोयणचिन्नेन सूत्रेण तत्र उकारस्य वकारः भवति तदपि योग्यं परन्तु कदा भवति <laughs> hmm. <laughs> परे स्वरः अस्ति चेदेव अत्र स्वरः अस्ति वा न किमस्ति व्यञ्जनमस्ति अधिकव्यञ्जनसन्धि न भवति कदापि हा स्वरः परेश्वरः वा स्वरः परे व्यञ्जन स्वरः परेश्वरः व्यञ्जनं परे व्यञ्जनम् तदा एव सन्धेः प्रसक्तिः अस्ति hmm. खलु अत्र उकार अधिकगकार कथं भवति सन्धि न भवति अतः अनुगतवान् hmm. Mm -hmm. आस्थाने अपि किं भवति आगतवान् किमर्थम् आ, आ इति स्वरः ग इति व्यञ्जनम् स्वरः अधिकव्यञ्जनम् किमपि न भवति आगतवान् अनुगतवान् mm -hmm. एवं प्रतिगतवान् निर्गतवान् अत्रापि पश्यतु निर्गतवान् सन्धिः नास्ति अस्तु स्वरः परे स्वरः तदा एव यणसन्धे प्रसक्ति व्यञ्जनपरिव्यञ्जन तदा एव व्यञ्जनसन्धेः प्रसक्ति परन्तु स्वरः परे व्यञ्जनं वा व्यञ्जनस्य परे स्वरः सन्धि भवितुं न व्यञ्जनमध्ये अनन्तरं स्वरः आगच्छति चेत् वर्णमेलनं भवति वर्णमेलनं भवति पट् अस्तु भगिना म हलन्त तस्मात् प्राक् तस्मात् परे यदि अ आगच्छति तत् म वदाम आगच्छति चेत् मा मु मु एवम् सर्वं भवति पट् तत् सन्धिः इति न सन्धेः विषये सन्धेः विषये तत्र स्वरः परस्वरे व्यञ्जनम् परे व्यञ्जनम् एतादृशी स्थितिः एव आवश्यकी अस्तु अस्तु अस्तु धन्यवादः आमाम् आम। <laughs> तत् न आरम्भे एव तत्र स्पष्टता भवति चेत् नो चेत् तत्र अवगमनार्थम तत्र पुस्तके सर्वम् उत्तम एव प्रतिपादनम् अस्ति तस्य परन्तु कदा कदा मनसि बहवः प्रश्नाः आगच्छन्ति एतत् कथम् एतत् कथं तदा तस्य भवेत् चिन्तनम् अस्तु अधुना पुस्तकं प्रति गच्छामः मा। अस्माकम् अहं मन्ये तत्र एकनिमिषम् पुस्तकम् mm. वा भगिनी आमां तत् नैण्टि सिक्स् सत्यम् तस्मात् प्राक् यदस्ति तत् वयं कृतवन्तः हा, हा मूढाः देवं न प्रपद्य एवं सर्वं वयं कृतवन्तः हा, हा पश्यन्तु अत्र किमस्ति उपसर्गसहितक्रियाः लङ्पाणि तव तु प्रत्ययान्तरूपाणि पुल्लिङ्गे इति लिखितमस्ति अस्तु हा अधुना जयन्तीभगिनी भवती आरम्भं करोति वा पठति वा आं भगिनी पठामि उपसर्गसहितस्त्रियाः आगच्छति लङ्पाणि आप्लस् अगच्छत् आगच्छत् आ प्लस् गतवान् तव तु प्रत्ययान्तरूपाणि आ प्लस् गतवान् आगतवान् आनयति आ प्लस् अनयत् आनयत् आ, mm. आ, आ प्लस् आनयत. mm. नीतवान् आनीतवान् mm. प्रतिवदति प्रतिप्लस् अवदत् प्रत्यावदत् तत्र mm. आ, इकारं प्लस् अकारम् इ इति या परिवर्तनं भवति भगिनी अतः तत्र इ प्लस् आ या इति प्रत्यवदत् सत्यं योग्यं प्रति प्लस् उदितवान् प्रत्युदितवान् उ इति तत्रापि इ प्लस् उ यू इति भवति प्रत्युदितवान् अत्र स्थितिका अस्ति पश्यन्तु सर्वे वद इति धातु वदधातोः कृते वद वद धातोः कृते तत् तव तु प्रत्ययान्तरूपम् उदितवान् इति भवति हा तत् वकारस्य उकार तव किमर्थं तत्र सम्प्रसारणम् इति एका संज्ञा तेन किं भवति वकारस्य उकार यणसन्धेः विषयः कः उकारस्य वकार परन्तु शक्यते खलु उक्तवान् आमां तदपि योग्यं तत् वच्च धातोः कृते वदन्ति ते अस्तु परन्तु तत् उदितवान् उक्तवान् अर्थदृष्ट्या न कोऽपि तत्र भिन्नता किमपि नास्ति तत्र भिन्नता न नास्ति एव कापि भिन्नता नास्ति तत्र उक्तवान् अपि अस्ति उदितवान् अपि अस्ति हा परन्तु उदितवान् तत् वकारस्य उकार आम् आम् तत्र वक्षधातोः अपि यथा भवती वदति तत् उक्त तत् वकारस्य उकार किमर्थम् सामान्यभाषायां टु सिम्प्लिफै रिवर्स् आफ् इकोयनजि तत् सम्प्रसारणं तत् सम्प्रसारणं तेन किं भवति वकारस्थाने उकार आदेशः mm -hmm. अधुना उदितवान् इति रूपं यथा भवती उक्तवती तत् प्रत्युदितवान् इति रूपं निष्पद्यते mm -hmm. mm -hmm. योगे mm -hmm. अग्रिमे किमस्ति निर् प्लस् आ प्लस् अकरोत् उपसर्गद्वयम् आगच्छति वयम् तत्र अतः निर् इति निर् निर् निराकार निर् प्लस् आ निरा निराप्लस् अकरोत् निराकरोत् इति निर् प्लस् आ प्लस् कृतवान् निराकृतवान् तावदेव तदनन्तरम् अनुकरोति अधुना निरा निरा निराकरोति इत्युक्ते किम् निराकरोति पश्यन्तु तत् संशयू अत्र संशयस्य निराकरणम् इत्युक्ते तु रिजो दि काम्प्लेक्ट् इति भावः निर् hmm. उपसर्गः मनसि संशयः अस्ति तस्य ओके एवमस्ति तत् रिजो दि कान्फ्लिक्ट् इति वट् एवर् डौट्स् यु हाव् इति hmm. तत् निराकरणं निराकरोति अनुकरोति अनु प्लस् अकरोत् अन्न प्लस् ऊ मीन् अन्न प्लस् ऊ प्लस् आ अतः अन्न प्लस् उकारम्भिकं बकारं सो अनकरोत् इति सत्यम् योग्यम् अनु प्लस कृतवान् सेम् अनुकृतवान् ऐ मीन् अनुकृतवान् सत्यम् अत्र कः अर्थः अनुकरोति इत्युक्ते प्रविशति प्र प्लस् अविशत् अत्र प्र प्लस् प्राविशत् बेनि प्राविशत् प्राविशत् प्राविशत् प्र प्लस् विष्टवान् प्राविष्टवान् तत्र विश् धातो तव तु प्रत्यान्तरूपं तत्र शकार अस्ति षकार अत्र तालव्यशकारः अस्ति मूलता धातुरूपे ह तालव्यशकारस्य मूर्धन्यषकार भवति अधुना मूर्धन्यत्वसन्धि भवति योग्यं भवति सत्यं योग्यं योग्यं प्रविष्टवान् विलिखति वि प्लस् आलिखत् uh iv plus e become ya really can mm -hmm. uh v plus likitava vilikitava mm -hmm. uh pariharati pari plus aharat paryaharat hmm paryaharat par plus uh, uh, ya e become mm -hmm. ya uh, um परिहरत् इति भवति बेनि तत्र mm, परिप्लस् हृतवान् परिहृतवान् अत्र mm, रुधातु तस्य भूतकालरूपमस्ति अहरत् अहरत् लट्टलकारे हरति परि उपसर्ग परिहरति परिहरत् लङ्लकारे रुधातु तव तु कत्यान्तऋतवान् परियोजयाम चेत् परिहृतवान् Hmm. अग्रिमे अवगच्छति अव इति उपसर्गम् अगच्छत् इति भूतकालधातु अवागच्छत् इति अवागच्छत् इति आटश्च भवति खलु बेनि सारि सत्यं योग्यम् अव प्लस् गतवान् अवगतवान् अत्र बहु uh, बहु बहुषु स्थलेषु किं भवति तत् अवगच्छति इस् टु अण्डर्स्टेण्ड् अवगमनं भवेत् तत् um, um. पश्यतु लङ् लकार तव तु प्रत्ययन्तरूपाणि सम्भाषणे तस्य उपयोगः कुत्र कुत्र अधुना अग। अवगतवान, अस्तु अवगतवान् हा तत् परन्तु तत्र अवागच्छत् अनन्तरं ताम् तत् रूपाणि लङ् लकारस्य तालिका Mm -hmm. तालिकायाः स्मरणं भवेत् अनन्तरं मध्यमपुरुष mm -hmm. वा उत्तमपुरुष नो चेत् अत्र अवगतवान् सुलभः mm -hmm. इत्युक्ते mm -hmm. अवगतवान् भवती mm -hmm. एवं सर्वं सुलभ mm -hmm. सौलभ्यं वर्तते तव रूपाणि mm -hmm. इति mm -hmm. नियुङ्क्ते नि mm -hmm. प्लस् अयुङ्क्ते इति उपसर्गम् अयुङ्क्त इति भूतकालरूपं मध्यपुषबहुवचनरूपमिति इन् प्लस् यिकं या न्ययुङ्क्तयुङ्क्त नि uh, प्लस् युक्तवान् नियुक्तवान् अत्र स्थितिः uh, पश्यन्तु सर्वे युज इति धातु अस्ति हा युज इति धातु मूलतः युजधातोः किं रूपम् अत्र नियुक् युजधातोः लङ् लकार तत युक्ते इति तु लट्लकाररूपं ते ते अन्ते अतः नि युक्ते इति लट्लकाररूपं नि उपसर्गस्य योजना अनन्तरम् अत्र पश्यन्तु अत्र प्रत्यवदत् निराकरोत् अन्वकरोत् प्रविशत् व्यलिखत् परिहरत् अवागच्छत् सर्वेषु स्थलेषु त हलन्तदृश्यते परन्तु अत्र त, अन्तिमत त, इति अस्ति तत्र हलन्तरूपं न दृश्यते किमर्थं लङ्लकारे यदा आत्मनेपदी धातु अस्ति चेत् के प्रत्ययाः त इताम् अन्त लङ्लकारे परस्मेपदे ताम् अन् अतः तत् त दृश्यते त, त, त, त।, त। परन्तु आत्मनेपदी तत्र पूर्णतः तत्र त इति त इताम अन्तथाः इथां द्वम् इवहि महि इति एते प्रत्ययाः सन्ति तत् भवतु नाम परन्तु लंग लकारे प्रथम प्रथमपुरुष एकवचनान्तरं तत्र अयुङ्क्त अयुङ्क्त इति अस्ति न अयुङ्क्त अगच्छत् अहरत् अलिखत् अप अविशत् सर्वेषु स्थलेषु तकार हलन्त परन्तु अत्र तश् तादृशी किमर्थम् आत्मनेपदिधातु युज् इति नियुक्ते तस्य आत्मनेपदिरूपं युङ्क्ते नियुङ्क्ते अयुङ्क्त नि अधिक अयुङ्क्त यकार न्ययुङ्क्त इति अग्रिमे पश्यन्तु युक्तवान् इति अस्ति युक्तवान् नियुक्तवान् तत्र कोऽपि भेदः न अत्रापि पश्यन्तु कः लाभः नियुक्तवान् इति वदामि चेत् तत्र मया अत्र अर् अत्र चिन्तनमेव न कृतम् आत्मनेपदी अस्ति वा परस्मेपदी अस्ति वा तालिकां स्मरामि तत्त इति अस्ति प्रथमपुरुषे एकवचनान्त आत्मनेपद्या तु चिन्ता एव नास्ति अत्र नियुक्तवान् नियुक्तवती नियुक्तवन्तः नियुक्तवत्यः एव एतानि रूपाणि आस्थानतया मत्लब् यः इट् बिकम्स् वेरि ईज़ी टु यूज् दीस् रूपाणि इन्स्टेड् आफ् गोयिङ्ग् फार् लङ्लकार हा परन्तु अस्माभिः अत्र स्मर्तव्यं किम् इति नियुङ्क्त इति नि उपसर्गपूर्वकयुज् धातोः लङ् लकारे आत्मनेपदी प्रथमपुरुष एकवचनान्तरूप इति स्पष्टमस्ति अत्र सर्वेषां सन्देहाः सन्ति वा अत्र न भगिनी स्पष्टमस्ति मम ध्वनि श्रूयते वा भगिनी भवत्याः श्रूयते न श्रूयते मम ध्वनि भवत्याः श्रूयते श्रूयते भगिनि मां न श्रूयते भगिनि अस्तु श्रूयते ज्वयन्ति भगिनी अधुना सम्यक् अस्ति वा No. Um, जयन्ती भगिनी एकवारं निर्गच्छतु पुनः एकवारम् आगच्छतु एक्सिट् कृत्वा पुनः एकवारम् आगच्छतु भगिनी अधुना श्रूयते वा बेनी श्रूयते वा मम ध्वनि अधुना अधुना स्पष्टमस्ति पठतु अग्रिमे पठतु अवलोकते आं बेनी।, बेनी बेनी वन्दते दातु वन्दे वन्दे ते वन्दन्ते तावद खलु बेनी युजु दातु आं सत्यं सत्यम् ओके okay. अवलोकते अव प्लस् अलोकत अवालोक अव प्लस् लोकितवान् अवलोकितवान् आधत्ते आ प्लस् अधत्त आदत्त आ प्लस् दत्तवान् आदत्तवान् दादातु द्वयपदि भवति खलु बेनि आम् आम् सत्यम् उपजायते उपप्लस् अजायत उपाजायत उप उपा प्लस् जातवान, उपजातवान् प्रपद्यते प्र प्लस् अपत्यत प्रापत्यत प्रप्लस् पन्नवान् प्रपन्नवान् निर्वर् निवर्तते मी प्लस् अवर्तत किन अंश धन्यवाद के के अंश उपसर्गसहितिया अस्त चेत यथा लंग लकारे चेत यहाँ सन्धे प्रसक्ति अस्त तत् सन्धिं कृत्वा एव रूपसिद्धिः भवति लङ्लकारे यदा उपसर्ग अनन्तरं व्यञ्जनम् उपसर्गस्वरः अन्तिमे अन्तिम अच् अन्त अजन्त अस्ति अनन्तरं स्वरः अस्ति चेत् तदा एव सन्धेः प्रसक्तिः यदा स्वरः अच् परे व्यञ्जनम् आगच्छति चेत् तदा सन्धि सन्धेः कोऽपि प्रसक्ति नास्ति तत्र केवलम् जायिन् कृत्वा वयम् वदामः अधुना तत्र लट्लकार लङ्लकार लङ्लकाररूपाणि तथैव लट्लकाररूपाणि धातोः विषयकचिन्तनम् भवेत् इत्युक्ते धातु आत्मनेपदी वा परस्मैपदी वा इति दृष्ट्वा एव लट् लकार वा लङ्लकाररूपाणि वयम् साधयामः लङ्लकारे धातु यदि परस्मैपदी अस्ति चेत् प्रथमपुरुष एकवचनान्त त इति प्रत्यये त अन्तिमत हलन्त इति रूपं दृश्यते परन्तु आत्मनेपदी धातु अस्ति चेत् त इति प्रत्यय प्रथमपुरुष एकवचनान्त तदा हलन्त रूपं न दृश्यते एवं सर्वम् परन्तु तव तु प्रत्यान्तरूपाणि एतादृशम् चिन्तनम् न आवश्यकम् यतोहि तत्र किमपि परिवर्तनं न भवति तवतु तु प्रत्यान्तरूपम् अपि भूतकालम् एव सूचयति यथा लङ्लकाररूपमपि भूतकालस्य एव बोधनं करोति अस्तु अधुना अग्रिमे तत् क्रियापदानि सन्ति लङ् रूपानी सन्ति तवतु रूपानी अपि सन्ति तत् एक्ससैज् अभ्यास इति रूपेण अस्ति तत् कुर्मः अग्रिमे हा भारतमहोदय भवान् आरम्भं करोति वा आं भगिनि उदाहरणं दृष्ट्वा रिक्तस्थानं पूरयत क्रियापदानि आहरति लंगरु, आहर, आहरत अहरत लङ्गी प्ली वक्तुी आहर हरतवान् ऋतवान् अतः पश्यन्तु आहरत् इति लङ् रूपम् अनन्तरं रुधातु तव तु रूपं ऋतवान् तत् आ ऋतवान् सन्देहे प्रसक्तिः नास्ति आ ऋतवान् अस्तु अगच्छत् इति रूपं आ, यो गच्छति आगच्छति आगच्छतवान् गच्छत गच्छत् इति खलु हा लङ् लङ् रूपं न लङ् लङ्लकार आगच्छत् आगच्छत् आ अधिक गच्छति आगच्छत् आगच्छत् अधुना तव तु रूपं गमधातोः तव तु रूपं किमस्ति गतवान् इति गतवान् आगतवान् आगतवान् आगतवान् hmm. उत्तिष्ठति hmm. उत् योग अतिष्ठत् hmm. उद उदतिष्ठत् उदतिष्ठत् तत् कथम् अभवत् पश्यन्तु तकार अस्ति अनन्तरम् अकार, अकार अस्ति हा तत् तकार अकार त इति भवति परन्तु अत्र जस्त्व अपि भवितुमर्हति किमर्थं तत उत् इति उपसर्ग स्वयंपूर्ण तत पदरूपेण स्वीकृत्य जलां जसोन्ते अनेन तत् दकार उद् अपि भवितुमर्हति तत् उद् उत् ह यथा वयं वदामः तद् तत् तद, तद, एतद् एतत् तत् अन्तिमे तकार यत् अस्ति तत् दकार अपि भवितुम् अर्हति अतः तत्र द अधिक अ उद तिष्ठत् इति रूपं तत्र दृश्यते हा okay. अधुना तव तु प्रत्येका सिति उत स्थितवान् उत, उत्थितवान् उत्थितवान् सकार अपगच्छति उत्थितवान् इति सकार तत्र उद्योगस्थितवान् यत् सकार अस्ति तत् अपगच्छति उत्थितवान् अत्रापि सर्वे पश्यन्तु हा मूलतः उत्तिष्ठति तत्र स्था इति धातु अस्ति स्था इति धातु अस्ति परन्तु तत्र यथा पाधातु पिबति भवति हा दृश्यधातु पश्यति भवति लट् लकारे तथा स्थातु तिष्ठति भवति केवलं लट् लङ् लकारे अतः तत्र अतिष्ठत् इति रूपं दृश्यते लम्लकारे लकारे इति रूपम दृश्यते लट्लकारे तत् उत् इति उपसर्ग उत्तिष्ठति उत्त उत्तिष्ठत उदतिष्ठत् एवम् दृश्यते परन्तु तव तु रूप तत् स्थातु स्वीकृत्य एव तव तु रूपं भवति तत्र तिष्ठवान् वा तिष्ठितवान् एवं न दृश्यते स्थाधातु मूलता अतः स्थितवान् उत्थितवान् उत्तिष्ठति इत्युक्ते पश्यतु खड़ा इत्युक्ते गया, हि स्टेण्डिङ्ग् डेयर् तिष्ठति वैटिङ्ग् डेर् परन्तु उत्थितवान् इस् टु गेट् अप् यदा शिक्षकः प्रवेशं करोति तथा छात्राः छात्राः उत्ति, उत्ति, उत्तिष्ठन्ति छात्राः उत्तिष्ठन्ति वा भूतकाले छात्राः उत्थितवन्तः इति uh, mm. अस्तु mm. अग्रिमे uh, अनुगच्छति अनु योग अगच्छत् अन्वगच्छत् अन्गध्धध्ध्ध। अ कन्वर्टेड् इन् तु सत्यं सम्यक् उत्तमम् अग्रिमे तव तु रूपं किं भवति गच्छतवान् गतवान् अनुगतवान् अनुगतवान् योग्यम् अनुसरति अनुयोगरति अनुसरति अनुयोगर अनुयोग पश्यन्तु लङ्लकारे किं भवति प्रथमता तु अवागच्छति असरत असरत अनु असरत अनु असरत ओके तत् तेन किं भवति अनु उकार अस्ति वकार अन्वसरत् अन्वसरत् अन्वसरत् ओकेत् ओके अनु सरत् सर सरतवान् ृतवान् श्रुतवान् अनुसृतवान् इति मूलतः स्रुधातु तस्य लिखित्वा लिखित्वा पश्यामः वा पश्यन्तु सृधातुः अस्ति हा मूलतः तस्य ऋकार अर् भवति अर् अतः रति इति रूपम् चरति अनन्तरं लङ्लकारे किं भवति असरत् तबतु प्रत्यय श्रुतवान् शुर्त अनुसृतवान् अत्र किं भवति अनु तत् उकारस्य वकार अन्वसरत् उकार अन्वसरत् इति भवति अन्वसरत् भवति अत्र अनुसरति अनुसरति अन्वसरत् अनुसृतवान् okay. mm -hmm. इति श्रु अस्ति तस्य स्रु सरति गत्या गत्यार्थे सरति अस्तु mm -hmm. अत्र okay. प्रह प्रहरति प्रयोगम् अहरत् प्राहरत् सम्यक् सम्यक् प्रयोगहृतवान् ृतवान् ऋतवान् ओके अस्तु अस्तु धन्यवादः धन्यवादे एतत् समापयामः विणा भगिनी भवती पठति वा प्रक्षालयति ततः आरभ्यगिनी अवश्य प्रक्षालयति इत्युक्ते प्रयोगालयति प्रयोग लवलकार भवेत् तदा किं भवति अ आनयामः हा लङ् लकारे आदौ अ आगच्छति तत्र एकं सूत्रमस्ति लुङ् लङ् लुङ् षडुदात्ततेन अकार आगच्छति हा इत्युक्ते तत्र गच्छति अस्ति चेत् अगच्छद् भवति वदति अवदत् भवति अ तु आनयामः प्रधिक अधिक क्षालयत् प्र अधिक क्षालयत् क्षालयति प्र तथैव क्षालयति तस्य अक्षालयत् भवति अधुना प्र अधिक अक्षालयत् प्रक्षालयत् एवं खलु प्रक्षालयत् प्रक्षालयत् प्रक्षालयत् अधुना तव तु किं भवतु अर्हति प्रयोगः इति अस्ति चालितवान् तत्र कुत्रचित् स्थलेषु तत्र इडागमः भवति अधुना गतवान् तत्र ई न अस्ति परन्तु पठितवान् अस्ति हा तत्र पठवान् खलु पठितवान् इति वदामः हा तत् तत्रापि नियमाः सन्ति परन्तु शनैश्चनैः वयं बहुवारं वदामः चेत् स्मरणे आगच्छति हा प्रक्षालितवान, अभ्रिमे वियोगः हरति हा वी वियोग हरति अधुना हरति इति लट्लकार हरति एतस्य लङ्लकारः किं भवति हरयत् अहरत् अहरत् अङ् इति चिन्तयामः चेत् अनिश्चयेन आनयामः अहरत् अधुना वि अधिक अहरत् वि अधिक वी… हरत् विहरत् विहरत् व्यहरत् व्याहर तत्र एकम् एकः नियमः अस्ति तस्मात् कारणात् व्याहरत व्याहरत् इति रूपं निष्पद्यते हा व्याहरत् इति व्याहरत् इति रूपं निष्पद्यते एकः नियमः तत्र तत् कार्यं करोति तत्र एकं नियमं तत्र अतः तत् व्याहरत् अधुना हरधतु तस्य ऋतवान् इति आप्तवती प्रत्ययन्तरूपं ऋतवान् ह हरिः चित्तं ऋतवान् हरणं कृतवान् अधुना ऋतवान् वि अधिक ऋतवान् किं भवति विहृतवान् विरुतवान् न भवेत् किमर्थं तत्र स्वरः अस्ति वा स्वरकारे यदा स्वरः अस्ति तदा एव ईको यण् अचि अचि अचि अचि अचि इत्युक्ते स्वर यदा स्वरस्ति तदा एव परिवर्तनं अस्तु अग्रिमे करोतु परित्यजति भगिनी पूर्वस्य तव तु रूप कथं भवति विहरति व्यहरति वा व्यहर लिखामः रुधातु अस्ति तत् ऋतवान् इति रूप हा अधुना वी अस्ति वि एतस्य अंतिम इकार अस्ति परन्तु अत्र हकार अस्ति तदा परिवर्तनं न भवति यतोहि परिवर्तनं कदा भवति इकस्थाने यण् भवति कदा यदा परे अच् आगच्छति चेत् इको यण् यन... <tie> अच् भवेत् तदा एव परिवर्तनम् अत्र स्वरः अस्ति वा अतः विरुपन् सिम्पल् एडिशन् वि अधिकरुतवान् विरुन् विहृतवान् हा अस्तु भगिनि अस्तु अस्तु यदा स्वरः गच्छति तदा एव परिवर्तनं भवति इति वीक्षिका परित्यजति परि आयोगः त्यजति सत्यं परियोग त्यजति ल त्यजत् त्यजत् लङ्लकारे अत्यजत् अत्यजत् हा हा परि अधिकम् अत्यजत् इकार तस्य लिखामः अत्र पश्यन्तु परी त्यजति त्यजति बिकम्स अत्यज त्यजत् अत्यजत् अधुना इकार पर इकार अस्तु भगिनि अधुना अधुना पश्यतु कास् कास् इति पर् य अधिक अ पर् यजत् अधुना रेफः अस्ति रेफस्य का विशेषता उच्चारणसमये उच्चारणं प्राक् भवति परन्तु लेखनसमये किं भवति यकारस्य उपरि परि त्यजत् जत् उच्चारणसमये प्रथमं परन्तु लेखनसमये लैक् केप् सिटिङ्ग् आन् द हेड् आफ् नेक्स्ट् वर्ण पर्य त्यजत्जत् पर्यजत् अस्तु आरम्भे लिखित्वा एवं वयं यदि पश्यामः चिन्तनं चिन्तनसमये अपि वयं लिखित्वा चिन्तनं कुर्मः तदपि हानि न तत्र लिखित्वा लैक् मेथमेटिकल् इक्वेषन् दिस् प्लस् दिस् प्लस् दिस् पर्यत्यजत् अधुना अत्र किम् आगच्छतु तव तु प्रत्ययितवान् प्रत्याजितवान् तदस्ति त्यक्तवान् त्यज त्यक्तवान् इति अस्ति परित्यक्तवान् सिम्पल् एडिशन् अत्र परि त्यज धातोः रूपं भवति त्यक्तवान् परित्यक्तवान् परित्यक्तवान् त्यक्तवान् केवलं तत्र एकीकरणं भवति तत्र एकत्र वयं स्थापनामः परित्यक्तवान् अस्तु mm -hmm. अग्रिमे अन्तिमं निक्षिपति एक पुनः एकवारं पश्यति वा अहं लिखितमस्ति परित्यक्तवान् अस्तु भगिनि अग्रे गच्छामः क्षिपति क्षिप्ति सिप् सिप् धातु परियोगः नियोग नीनि नियोगी नियोग नी नियोग क्षिपति अधुना क्षिपति लङ् लकार किं भवति क्षिपति अक् अक् अक्षिपत् अक्षिपत् क्षिपत् नी अधिक अक्षिपत् क्षिपति क्षिप इति धातु अधुना सर्वेषाम् एकवारं तत्र क्षिप इति धातु क्षिपति तत् क्षिः कथं भवति कश संयोगे कारणसमये निक्षिपति तत् क आघातरूपेण आगच्छति निक्षिपति नि अधुना क्षिपति अस्ति तथैव तिष्ठति अनन्तरं क्षिपति <laughs> अक्षिपद्भवति अक्षिपद् भवति अतः तेन किं भवति इकार तस्य यकार अ न्यक्षिपत् <laughs> इति रूपम् अत्र तत्र दृश्यते न्यक्षिपत् इति तव तु किं भवति न्यक्षिप्तवान् क्षिप्तवान् निक्षिप्तवान् निक तत्र किमर्थम् तत्र सन्देहे कोऽपि प्रसक्तिः नास्ति किमर्थं तत् क्षिप्तवान् तदपि स्वरः अन्तिम तत्र नी इकार परन्तु अत्र क्षिप्तवान् क्षिप्तवान् इत्युक्ते व्यञ्जन क्ष अत्र सन्धि न भवति निक्षिप्तवान् अस्तु भगिनि निक्षिप्तवान् क्षिपति निक्षिप्तवान् निक्षिप्तवान् तत्र लौकिकभाषायां तत्र क्षिप् इत्युक्ते तु, तु सुौ परन्तु निक्षिपति भवति तत् लौकिकभाषायां थोयिङ्ग् थो, बेळ्वर्ड् इति अर्थ निक्षिप्तवान् निक्षिप्तवान. तत् अर्थदृष्ट्या तद् भवति अस्तु धन्यवादः भगिनि धन्यवाद भगिनि अधुना गच्छामः कथां प्रति तत् किमस्ति अत्र अस्माकं चतुर अग्रिमे वर्गे अत्र मया एकम् अस्माकं विषयः एतत् मया स्वीकृतं कुटिलः कूपः इति अन्ये यदा तत्र श्यामलाभगिनी गीताभगिनी तत्र श्यामलाभगिनी अस्ति खलु श्यामलाभगिनी पठति वा, वा? <स्यानला> कथा पठति वा पठामि भगिनि हा पठतु कुटिलः कूपः इति कथायाः नाम अधुना पठतु कुटिलः कूपः कूपः इत्युक्ते वेल् कूपः तत् कुटिलः अस्माकम् अधुना गीतायाः अध्ययनमपि वयं कुर्मः व्याकरण अंशाः ये सन्ति तान् अंशान् अपि स्वीकृत्य वयं व्याकरणस्य विषयक अपि चिन्तनं कुर्मः तदा कुटिलः कूपः पठतु किमस्ति तत् कुटिलः कूपः धारायाः अधिपतिः भोजः नैके विद्वांसः स्म तेषु वाग्विभूष् वाग्विभूषणः अन्यतमः एकदा दूरदेशात् आगतः कश्चन पण्डितः विद्वत्सभायाः पुरतः एकां समस्यां प्रस् प्रस्तुतवान् अस्ति कश्चन विलक्षणः कूपः एतं कूपम् मानवः स्वेच्छया स्वेच्छया आनन्देन च प्रविशति पश्चात् कूपात् बहिः आगन्तुम् न शक्नोति किं नाम तस्य कूपस्य इति उत्तरं दातुं न कोऽपि अशक्नोत् तस्य अतिथिपण्डितः hmm. अवदत् अस्तु सप्ताहं hmm. यावत् अवधिं दास्यामि hmm. प्राप्तायां वि, विफलतायां विफलतायां मह्यं जयपत्रं दातव्यम् hmm. पर्याप्तम् अधुना hmm. पश्यन्तु सर्वे हा धारायाः अधिपतिः अधिपतिः इत्युक्ते नृपः भोज धारा धाराया इत्युक्ते धारा नगरी नगर्याः नामकरणं धारा इति तस्य अभि अधिपतिः अस्ति भोज ह तत्र नैके विद्वांसः इत्युक्ते ज्ञानीपुरुषाः तस्य सभां भूषयन्ति स्म भूषयन्ति स्म तत् वयं दृष्टवन्तः स्म इति योजना वयं कुर्मः स्म योजनेन किं सिद्ध्यति तत् भूतकालं ह भूषयन्ति स्म तेषु वाग्विभूषणः अन्यतमः वाग्विभूषणः वाक्विभूषणः अन्यतमः इत्युक्ते सुपीरियर् इति हा वाग्भि वाग्वि वाग्विभूषणः इति नामकरणम् एकदा दूरदेशात् आगतः कश्चन पण्डितः विद्वत्सभायाः पुरतः एकां समस्यां प्रस्तुतवान् तत्र प्रश्नकर्ता कः कश्चन पण्डितः दूरदेशात आगतः सम्बडि फ्रॉम अदर कण्ट्री दूरदेशात। सः तत्र उपस्थितः आसीत् भोज राजा भोज इतिनरूपस्य दर्मारे दरबारे तत्र एकः पण्डितः दूरदेशात् आगतः तत्र उपस्थितः तत्र ज्ञानी सन्ति अतः सः एकं प्रश्नं पृष्टवान् एकां समस्यां प्रस्तुतवान् अस्ति कश्चन विलक्षणकूप अधुना एषः पण्डितः कूपस्य वर्णनं करोति कूप इत्युक्ते वेल् इति तस्य वर्णनं करोति कूपः अस्ति तत्र सः एषः कूपः विलक्षणः अस्ति कीदृशम् तत्र विलक्षणता कीदृशी मानवः स्वेच्छया आनन्देन प्रविशति कूपप्रवेशम् आनन्दभावनया स्व इच्छानुसारेण स्वेच्छया ओन् हिस् ओन् विश् इति स्वेच्छया आनन्देन प्रविशति परन्तु कूपात् बहिः आगन्तुं न शक्नोति सि द एण्ट्री इस् हेपि आल् आर् एण्ट्री एण्ट्री इस् वेरि ईज़ी परन्तु कूपात् बहिः न शक्यते बहिर्गमनं न शक्यते हा तत्र कूपं प्रवेशं कूपप्रवेशं सुलभतया परन्तु कूपात् बहिर्गमनं न शक्यते नाट् पासिबल् ओनि तत्र काठिन्यमिति न आगन्तुमेव न शक्नोति इति कूपः किं नाम तस्य कूपस्य इति समस्या विद्वज्जनाः तत्र तेषाम् पुरतः समस्या वदतु कूपस्य नाम किम् उत्तरम् न कोऽपि अक्षि अशक्नोत् अत्र सर्वे पश्यन्तु अशक्नोत, इति लङ्लकाररूपम् शक्नोति लट्लकाररूपम् लङ्लकार लङ्लकारस्य चिन्तनम् अनिशेन आनयामः अशक्नोत् इति रूपम् तस्य अतिथिपण्डितः अवदत् अवदत् लङ्लकार वदति लट्लकार लङ्लकारे अ आनयामः अवदत् अस्तु सप्ताहं यावत् अवधिं दास्यामि दास्यामि भविष्यत्काले दादातु दास्यामि भविष्यत्काले वदतु ददामि लट्लकारे दास्यामि प्राप्तायां विफलतायां मह्यं जयपत्रं दातव्यम् अधुना पश्यन्तु सर्वे वट् इस् द कण्डिशन् दिस् द लास् पार्ट् कण्डिशन् इस् वेरि इन्सल्टिङ्ग् फार् भोजराजा किम् प्राप्तायां विफलतायाम् अधुना कोऽपि उत्तरम् अवधि अवधिम् अपि तत्र अवधिम ददाति सह सप्ताहं यावत् सप्ताहं यावत् चिन्तनं सर्वे कुर्वन्तु परन्तु यदा उत्तरं न प्राप्नुवन्ति चेत् विफलतायां मह्यं जयपत्रम् तिस् लेटर शोयिङ्ग् हिस् विक्ट्री इत्युक्ते किं भोज रा भोजराजन् तत्र दर, तत्र सभायां विद्वान् कोऽपि नास्ति इति अर्थः हा, हा अधुना दूरदेशात् एषः पण्डितः सः जयपत्रं प्राप्नोति इत्युक्ते तत्र विजयपत्रम् इत्युक्ते भवानेव श्रेष्ठ स्रेश्था, श्रेष्ठत्वं दर्शयति इत्युक्ते किम् एतावत् तत् एतादृशः विद्वानः मनुष्यः अस्माकं समीपे नास्ति इति अस्तु स्पष्टमस्ति एतावत् पर्यन्तं सर्वेषाम् अस्तु अग्रिमे अधुना गीता भगिनी पठति वा राजा एतत् अङ्ग्यकरोत् ततः आरभ्य तस्य अतिथिपण्डितस्य निर्गमनस्य अनन्तरं सः वाग्विभूषणम् अवदत् त्वया अस्य उत्तरम् अन्वेष्टायम् इति वाद्यविभूषणः चिन्तयः जातः अती तानि एकदिनानि सप्तमे दिने प्रातःकाले अस्वस्वस्थितः सः नगर बहिः बहिः नद्याः कीरे इतस्ततः आत दूरे स्थितः दक्षण एतत् दृष्ट्वा तम् उपसन्त्य अपृच्छत् आर्य भवान् चिन्ता पुरः इव श्यते किं तस्य कारणम् तावत् यदि शक्यं तर्हि अहं समस्या परिहारात् साहाय्यं करोमि कर्यां कुर्यां सारि कुर्यां कुर्या भवती तत्र सम्यक् नास्ति वा स्वास्थ्यं भगिनि अस्तु अस्तु अस्तु आमामाम् अस्तु अस्तु स्वास्थ्यं रक्षतु अस्तु हा धन्यवादः भगिनी हा धन्यवादः अधुना राजा एतत् अङ्ग्यकरोत् अङ्गी अकरोत् अत्रापि पश्यन्तु सर्वे उपसर्ग आ, उपसर्ग इति न तत्र अंगी इति तत एकम तत् एकं च्वीप्रत्ययान्तरूपं परन्तु अत्र सन्धि अंगी अकरोत् अङ्ग्यकरोत् इति तस्य अङ्ग्यकरोत् इत्युक्ते सः स्वीकृतवान् राजा एक्सेप्टेड् फैनलि हा तत् प्राप्तायां विफलतायां मह्यं जयपत्रं दातव्यं सप्ताहं यावत् चिन्तनम् अवधि इति चिन्तनस्य कृते तस्य अतिथिपण्डितस्य निर्गमनस्य अनन्तरम् सः वाग् वाग्विभूषणम् अवदत् अधुना वाग्विभूषणम् इति तत्त वाग्विभूषण इति ज्ञानीपण्डितः राजा भोजः अतः तम् वदत् अवदत् त्वया अस्य उत्तरं अन्वेष्टव्यम् अन्वेष्टव्यष्टव्यम् एष्टव्यम् इत्युक्ते तत्र खिन्दनं कृत्वा उत्तरं प्राप्नोति अनु इति उपसर्ग अत्र एष्टव्यम् इष् इति धातु एष्टव्यम् इति रूपम् तत्र अन्वेष्टव्यम् इति इत्युक्ते यु जस्ट् फैण्ड् औट् हिस् आन्सर् इति वाग्विभूषणः चिन्ताग्रस्तः जातः अतितानि षड्दिनानि अधुना पश्यन्तु सप्ताहं यावत् तत्र समय अवधि सप्ताहं यावत् एव अस्ति षड् दिनानि अतीतानि सिक्स् डेस् आर् ओवर् अतीतानि पास्ट् वे सप्तमे दिने प्रातःकाले अस्वस्थचित्तः सः अस्वस्थचित्तः वितवर् डिस्टर्ब् मैण्ड् नगरात् बहिः नद्याः तीरे इतस्ततः आटत आटत् हा अटत् इत्युक्ते तत्र भ्रमणं अकरोत् इति अट धातु अट इति धातु अट् इस्टु हिर हिरण्डेर् अधुना तत्र अपि अट धातु लङ्लकारे किमस्ति अ आगच्छति अ इति उपच अ, अ इति लुङ् लङ् लुङ् षडुधात्त यथा उक्तवती तत् अधिकभूतकाल अतः तत्र रूपम् अटत् इति निष्पद्यते हा सः नद्याः तीरे इतस्ततः भ्रमणम् अटनम् अकरोत् मनः मनस्थितिः कीदृशी अस्वस्थचित्तः मनः दूरे स्थिते कश्चन मेषपालः एतत् दृष्ट्वा तम् उपसर्प्य अपृच्छत् तत्र दूरे स्थिते एकः मेषपालः मेषपाल इत्युक्ते मेषपालः इत्युक्ते आम् आम् सेफ् इति मेषान् पालयति तत् तम् उपसर्प्य अपृच्छत् आर्य आर्य इत्युक्ते नोबल्मन् दिस् इस् अ वे टु अड्रेस् नोबल्मन् आर्य भवान् चिन्तातुरः एव दृश्यते चिन्तायाः कारणं किं वदतु यदि शक्यं तर्हि अहं समस्यायाः परिहारणं करोमि परिहर समस्यापरिहारार्थं साहाय्यं कुर्याम् कुर्यामित्युक्ते विधिलिङ्गरूप विधिलिङ्गं क्रु धातोः तत्र अहं साहाय्यं करोमि समस्यायाः निराकरणार्थम् इति कः वदति लेशपालः वदति हा अग्रिमे किम् अभव भवति पश्यामः हा, हा अग्रिमे तथा अधुना जयन्ति भगिनी पठति वा एषः मेषपाल तथारभ्य मेनि एषः मेषपालः मम साहाय्यम् कथम् कुर्यात् इति चिन् चिन्तयन् अपि पण्डितः क्रोधम् नियम्य मेषपालम् वसा स्वस अकथयत् एष मेषपालः स्वस्य सहा साहाय्यं कथं कुर्यात् कथं कर् करोमि अहम् इति चिन्तित्वा चिन्तित्वापि पण्डितः क्रोधं नियम्य मेषपालनं स्वसमस्याम् अकथयत् सः पण्डितसमीपं गत्वा वदति खलु अवदत् मेषपालः किञ्चित् विचिन्त्य अवदत् मत्समीपे अस्ति कश्चन विलक्षणः प्रस्तरः मेषपालः पण्डितं वदति मत्समीपे mm -hmm. मम समीपे कश्चन विलक्षणः प्रस्तरः प्रस्तरः तस्य स्पर्शमात्रेण वस्तु स्वर्णरूपं प्राप्नोति सर्वं स्यात् स्वर्णमयं प्रस्तरस्वा प्रस्तरस्वामी स्वर्ण स्वर्णसाम्राट् भवेत् इति मेघपालः पण्डितं समीपं गत्वा सः वदति मम कृ मम कृते मम समीपे एक विलक्षणः प्रस्तारः तत् एतत् इत्युक्ते मम तस्य ऐ मीन् स्पर्शनमात्रेण तस्य स्पर्शनमात्रेण किमपि वस्तु स्वर्णरूपं प्राप्नोति स्वर्णमयं भवेति भवति इति प्रस्तरस्वामी स्वर्णसाम्राट् भवेत् को कापि तस्य स्पर, स्पर् स्पर्शनं करोति तः साम्राट् स्वर्णसाम्राट् भवति बव, इति सः उक्तवान् hmm. hmm. एतत् श्रुत्वा पण्डितः लोभेन आक्रान्तः hmm. एतत् पण्डितः श्रुतवान् लोभं लोभ लोभार्थः भवन् भवति सः सः अपृच्छत् किं तं प्रस्तरं भवान् मह्यं दद्यात् इति सः मेषपालं वदति किं तत् प्रस्तरं मां ददातु दा, दा इति मह्यं दद्यात् सत्यं ददातु इति उक्तवान् मेषपालोभ लोभेन अक्रान्तः इत्युक्ते किं भगिनि लोभेन अक्रान्त ता, ता, ता, सा प्राप् प्राप्नोमि इति इच्छा हा लोभग्रस्तः इत्युक्ते लोभग्रस्तः मनसि लोभभावना सः पण्डितः ज्ञानी तर्हि किमभवत् मनसि लोभ सुवर्णस्य विचारः सुवर्णस्य विचारमात्रेण लोभेन आक्रान्तः शुद्धः नास्ति मनः शुद्धः मेषपाल पठामि वा बेनि कपि वाक्यद्वयम् अग्रिमे मेषपालः अवदत् अवश्यं दास्यामि किन्तु तदर्थं भवता मम वचनं पालनीयं कथय मया किं करणीयम् इति अनन्तरं मेषपालः अवदत् अवश्यं दास्यामि अहम् अवश्यं ददामि किन्तु तदर्थं भवता मम वचनं पालनीयं मम वचनं भवान् पालनीयम् इति उक्तवान् पण्डितः पृष्टवान् वदतु मया किं करणीयम् इति अधुना पश्यन्तु आरम्भे सः मेषपालं प्रति तुच्छभावनया पश्यति ओ एषः तु मेषपाल मम समस्याः निराकरणं कथं कर्तुं शक्नोति इति परन्तु अधुना किं किं करणीयं वदतु वदतु शीघ्रतया सः पृच्छति अहं दास्यामि किन्तु मम वचनं पालनीयं यत् किमपि अहं वदामि भवान् तथैव करोति योग्यं तत् शीघ्रतया सः वदति वदतु किं करणीयं मया किं करणीयम् अहं किं करोमि किमपि कर्तुं अहम् सक्षमः परन्तु मम समीपे एषः प्रस्तरः भवेत् सुवर्णसम्राट् इति प्रस्तरस्वामी अहम् सु सुवर्णसम्राट् भवितुम् इच्छामि सुवर्णरूपम् स्पर्शमात्रेण वस्तुना भवति यदा चेत् अहम् इच्छामि एषः प्रस्तरः विलक्षणप्रस्तरः मत्समीपे भवेत् कथय मया किम् करणीयम् इति अस्तु धन्यवादः भगिनी धन्यवादः धन्यवादः दन्य। अधुना आ, आ, आ, <coughs> हा विना भगिनी भवता अहं तत् ततः आरभ्य पठति वा भवता अहं गुरुरूपेण स्वीकर्तव्यः वाग्विभूषणः कोपेन अवदत् त्वं तु मूढ शिरोमणिः नीचजातिः च अहं कथं त्वां गुरुरूपेण स्वीकर्तुम् अर्हेयम् अपूर्वप्रस्तरः चेत् तत् अङ्गीकरणीयम् एव यदि एतद्भवतः सम्मतं न सम्मतं न तर्हि अहम् गच्छामि तावत् इति उक्त्वा मेषपालकः ततः प्रस्थातुम् तदा लोभाविष्टः पण्डितः प्रार्थयत् मा अहम् त्वाम् गुरुरूपेण स्वीकरिष्यामि किमभवदधुना hmm. स्वशब्दै वदति वा मेषपालः वदति मह्यं गुरुरूपेण स्वी स्वीकुर्य इति वाग्विभूषणः कुपितवान् कुपितवान् वदति च त्वं तु मूढशिरोमणिः त्वं तु मूढः नीचजाति च mm. त्वं तु ब्राह्मणः नास्ति नीचजातिः अस्ति mm. अहं mm. कथं गुरुरूपेण स्वीकर्तुम् अर्हेयम् mm. मया कथं त्वया गुरुरूपेण स्वीकर्तुम् अर्हति इति उक्तवान् इति अपृच्छत् सत्यं अपूर्वप्रस्तरः इष्यते चेत् तत् अङ्गीकरणीयमेव हां गच्छ मेषपालः वदति यदा यदा uh that uh that uh, that uh, what is that that that, that thing bhagini uh, uh, what is that thing, is that thing? Haan, that is? apurva prastara apurva, apurva prastara, prastara it took a particular stone ha my be stone any ah, uh, anything can be converted to gold it is ah, apurva okay, prastara ah, mm -hmm. yada ah, icchate ah, yada bhavans icchati एतस्य अङ्गीकरणं करणीयम् एव इति यदि एतत् भवतः सम्मतं न तत् हा यदा सम्मतं न तदा अहं गच्छामि इति अपृच्छ इति अवदत् उक्त्वा मेषपालः ततः प्रस्थातुम् उध्यतः इदम् उक्त्वा मेषपालः ततः प्रस्फुता प्रस्थातुम् उद्यतः गन्तुम् उद्यतः आम् आम् उद्यतः इत्युक्ते त सः सिद्धः ततः गमनं ततः ततः निर्गच्छामि इति यदि अङ्गीकरोति चेत् वरम् लोभाविष्टः पण्डितः प्रार्थय प्रार्थयत् मा ग रे अहं त्वाहं गुरुरूपेण स्वीकरिष्यामि इति उक्तवान् इत्युक्ते प्रथमे भागे किं किं शीघ्रतया पृष्टवान् लोभाविष्टः अधुना न न न अहं गुरुरूपेण अपि स्वीकरिष्यामि मा गच्छतु परन्तु अपूर्व प्रस्तरह अहम् इच्छामि तत प्रस्तरस्य प्राप्तिम् अहम् इच्छामि तत् सम्राट भवितुम् इच्छामि अहमेव भवामि लोभाविष्ट अग्रिमे किम् अभवत् पश्यामः धन्यवादः भगिनी भरतमहोदय अग्रिमे पठति वा धन्यवादः धन्यवाद अत्र, अत्र, अत्र आ, अस्तु अस्ति मम द्विती द्वितीयनियमः भवता मेषदुग्धं सेवि सुनकेन अहं तु वेदविद्याप्रवीणः जनः mm. कथं मया अपवित्रपशोः दुग्धं सेव्येत तदपि पी सुनकेन पीतम् Mm. किं कि माम् अवमानयसि mm. किं पण्डितः कोपेन अवदत् mm. यदि तत् न क्रियत् तर्हि अपूर्वप्रस प्रस्तरप्राप्तिः असम्भवा mm. मेषपालः अवदत् mm. पण्डितेन एतत् अपि अभ्युक् अभ्युपगतम् अभ्युपगतम् तदा मेषपालः अवदत् पश्यतु एतत् अस्ति समस्यायाः उत्तरम् मनवस्य कामना लोभः आसक्तिः इत्यादीनां समव समवायः एव सः विलक्षणः कूपः hmm. मानवः स्वेच्छया स्वेच्छया तस्य अन्तर्भागं प्रविशति किन्तु hmm. आमरणं Hmm. एतस्मात् कूपात् बहि बहिः आगन्तुं न शक्नोति hmm. वाग् वाग्विभूषणस्य त्रे समुद्वाति समुद्वाटिते समुद्घाटिते समुद्घाटिते समुद्घाटिते ओके okay. hmm. तेन समस्याः उत्तरं प्राप्तम् आसीत् सः निर निरक्षरं मेषपालं प्रणम्य ततः प्रती वर्तत hmm. अस्तु पश्यन्तु सर्वे एषा कथा कुटिलह कुप, कथायाः चयनं यत् मया कृतं तत् किमर्थमिति प्रथमतः तु अस्माकं विषयः गीताविषयकः अस्माकं पठनम् अधुना तत् एव प्रचलत् अस्ति द्वितीयं तत्र पश्यन्तु अत्र सर्वेषु बहुषु स्थलेषु तत्र उपसर्ग अनन्तरं लङ्लकाररूपम् एवं सर्वं दृश्यते अन्तिममपि प्रति नि अवर्तत् तत्रापि पश्यन्तु प्रति उपसर्ग नि इति लङ् लकाररूपम् एवं सर्वं बहुषु स्थलेषु अस्ति अतः तत् कथायाः चयनम् अधुना पश्यन्तु गुरुरूपेण स्वीकरणम् अभवत् अधुना द्वितीयः नियमः द्वितीयः नियमः मेषपालः किं वदति भवता मेषदुग्धं सेवितव्यम् तदपि शुनकेन किञ्चित् पीतम् इत्युक्ते प्रथमता शुनकः तद्दुग्धं पीतवान् तत् दुग्धम् एव भवता सेवितव्यं भवानपि तस्य से सेवनं करोतु सेवनं करोतु सेवनमित्युक्ते ग्रहणं भोजनं वा तत्र पानम् एवं सर्वं सेवनं तत एतादृशं तत उच्छिष्ट इति वदामः खलु तत् एतादृशम् अन्नं दुग्धपानं भवान दुग्धपाननम भात पश्य स क्रोधाविष पंडित वदा अहम तो वेद कथं मया मैं अपित्रपशो दुग्धम सेव्ये अपवितपशो पशन पंडित मनस्थि कीदशी मेषपाल जातिन सुनक अपवित्रपशु अहं गुरु एव गुरुत्वं यत्किमपि गुरुत्वं तत् मयि एव अस्ति गुरुरूपेण अत्र गुरुरूपेण दत्तगुरु वयं सर्वे जानीमः तत्र गुरुरूपेण तत्र पर्वतम् एवं तथा बालिका सर्वेषां गुरुरूपेण सः स्वीकृतवान् परन्तु एषः पण्डितः वेदविद्याग्रहणं परन्तु पशु शुनक इति अपवित्र तत् अपवित्रपशोः दुग्धं कथं मया सेव्येत् कथम् अहं तस्य सेवनं करोमि तदपि पी शुनकेन पीतं किं माम् अवमानयसि अवमानयसि अव उपसर्ग अवमानयसि इति इत्युक्ते तत्र आ, आ, नीचस्थानं नो तत्र अपमानम् इति अवमानं करोति पण्डितः कोपेन अवदत् अधुना एषः तु मेषपालः समीपे विलक्षणः प्रस्तरः आसीत् अतः अस्तु यदा तत् न क्रियेत् तर्हि अपूर्वप्रस्तरप्राप्ति असम्भवा प्रस्तरप्राप्ति न भवति अहम् न ददामि एवम् सर्वम् करोतु तदा एव प्रस्तरप्राप्ति प्रस्तरप्राप्तेः किम् सिध्यते सुवर्णसम्राट् मनसि लोभः पण्डितेन एतत् अपि अभ्युपगत् अभि अभि अपगतम् अभ्युपगतम् इति तदपि तत स्वीकर्तव्यं तत् तया त्वया तदपि स्वीकरणम् इत्युक्ते तस्य अपि स्वीकरणं कृतं पण्डितेन तदा मेषपाल अवदत् अधुना मुख्यविषयः पश्यन्तु एतत् अस्ति समस्यायाः उत्तरम्, समस्याः उत्तरं समस्या का कुटिलः कूप पश्यन्तु अत्र कुटिलः कूप कीदृशः कूपः कुटिलः कूप hmm. एतं कूपं मानवः स्वेच्छया आनन्देन प्रवेश प्रवेशं कथं करति कथं करो कुर्वन्ति मानवाः स्वेच्छया आनन्द आनन्दभावनया परन्तु कूपात् बहिः आगन्तुम् न शक्नोति एव न सम्भवति एव न शक्यते इति समस्याः उत्तरमस्ति मानवस्य कामना लोभः आसक्तिः इत्यादीनां समवायः एव सः विलक्षणः कूपः मानवस्य ये दुर्गुणाः मोह लोभः तत् तृष्णा आसक्तिः ह सर्वेषां समवाय समवाये तु ते एकत्रीकरणम् एकत्री भूत्वा सर्वे दुर्गुणाः तत्र तिष्ठन्ति विलक्षणः कूपः स्वेच्छया तस्य अन्तर्भागं प्रविशति अधुना एषः पण्डितः स्वेच्छया एवं प्रस्तरप्राप्तेः विषयकचिन्तनम् अपूर्वप्रस्तरप्राप्तिः भवेत् इति स्वेच्छया अन्तर्भागं प्रविशति किन्तु आमरणम् आमरणम् आजीवनम् मरणपर्यन्तम् जीवनम् एतावत् जीवनम् प्रवर्तते तत् आमरणम् आजीवनम् एतस्मात् कुपात् बहिः आगन्तुम् न शक्नोति एण्ट्री इस् वेरि ईजि स्वेच्छया परन्तु एक्सिट् असम्भव एव वाग्विभूषणस्य नेत्रे समुद्घाटिते ऐ ओपनर् तेन समस्यायाः उत्तरं प्राप्तम् आसीत् सः निरक्षरं मेषपालं प्रणम्य ततः प्रतिन्यवर्तत निरक्षरं मेषपालं प्रणम्य अधुना प्रणम्य प्रणाम इति इत्युक्ते सः नतः अधुना मेषपालस्य पुरतः सः नतः नम्रतया नम्रभावनया प्रणां कृत्वा ततः निर्गतवान् इति तत् उत्तरं सः प्राप्नुवान् कुटिलः कोपः इति कथा आगच्छन्तु अत्र वदन्तु शीघ्रतया मिनि निमेषद्वयं किं किम् अवगतं तत् स्वशब्दैः वदति वदन्ति वा एकमेकं बेनी श्रीकृष्णः वदति योगयुक्तस्य स्थितप्रज्ञस्य विषये भगवद्गीतायां कृष्णः उक्तवान् खलु द्वित्तं किन्तु लोभमग्नः लोभमग्नः अपि मान अपमानम् एतानि त्यजति किन्तु विपरीतरूपेण विपरीतरूपेण सत्यं सत्यम् सम्यक् सम्यक् योग्यम् अग्रिमे अरे ओ रमा भगिनी रमा भगिनी भवती यदा आगच्छति चेत् कृपया मां सूचयतु भवती अन्यत् कृत्वा, कृत्वा भी भी भी भी भी भी परन्तु तदापि यदा विलम्बेन भवती आगच्छति तदापि कृपया क्षम्यतां तत्र पठनस्य अवसरः न जात अधुना वदति वा कथायाः विषये वक्तुम् इच्छति वा यं मध्ये मध्ये एव अहम् आगच्छामि भगिनि अस्तु अस्तु चिन्ता मास्तु अस्तु अस्तु अस्तु चिन्ता मास्तु वीणा वीणा भगिनी वा श्यामला भगिनी गीता भारतमहोदय तत् वदति वा कथायाः विषये वीणा भगिनी अस्ति वा हा भगिनी अस्मि अस्मि भारतमहोदयः वदति वा शीघ्रतया वदतु हा वदतु न अस्तु अन्य वीणा वग्नि कूपः कीदृशः तत् प्रवेशं सुलभतया परन्तु तस्मात् एतम् अज्ञानम् अज्ञानं हि कूपं वा हा तत् अज्ञा अस्माकं भ्रान्तिः अस्ति खलु यथा कूपे अन्तर्भागे सर्वं यत्किमपि अस्ति तत् द्रष्टुं न शक्नुमः तथा अज्ञानं यथा भवती उक्तवती अस्तु अपूर्वः प्रस्तरः अस्ति स्वर्णमयी सर्वं भव भवितुमर्हति परन्तु तस्य प्राप्तिः तत् मिडास् मिडास् इति रूपः सर्वे जानन्ति खलु मिडास् तत्र यस्य कस्यापि स्पर्शं पर, भवति चेत् तस्य परिवर्तनं सुवर्णे भवति इति तेन अन्तिमतया किम् अभवत् सुवर्णप्राप्ति धनप्राप्ति एतत् सर्वम् अस्ति वा जीवने तु धनम् आवश्यकं तत्तु योग्यमेव अर्थार्जनं तु करणीयमेव परन्तु तत् सर्वम् एतत् सर्वं लभ्यते वा अर्थप्राप्ति भवति तत् सुखं लभ्यते भवति अतः तत् कूपः कीदृशः तत्र अज्ञानेन वेष्टितः अज्ञानेन एव अस्माकं मनसि सम्मोहः तत् विमूढता लालसा आसक्तिः एतस्य प्राप्तिः मया तत् करणीया अरे परन्तु किमर्थं तेन किं साधयामि अधुना लोभ मनसि परन्तु मम जीवने तस्य आवश्यकता अस्ति वा एतत् सर्वं वस्तूनि सङ्गृहीतानि मम समीपे परन्तु तेन सुखप्राप्ति भवति वा समाधानसुखप्राप्ति वा यत् जीवने आवश्यकमस्ति तत् सर्वं प्राप्नोति वा इति चिन्तनम् अस्तु हा धन्यवादः अस्तु धन्यवाद धन्यवादः धन्यवादः धन्यवादः सर्वेषां दन्य दन्य। धन्यवादाः नमो नमः अधुना एकम् एकं जयन्ति भगिनी शान्तिमन्त्रेण समापयामः तत् विस्मृतवती शान्तिमन्त्रे सर्वेषां स्वस्ते भवतु सर्वेषां पूर्णं भवतु सर्वेषां शान्तेर्भवतु सर्वे भवन्तु शान्तेर सुखिनः सर्वे सन्तु निरामयाः सर्वे भद्राणि निराम पश्यन्तु मा कश्चित् दुःखग् भवेत् ॐ शान्ति शान्तिशान्तिः हरिः ॐ सर्वं श्रीकृष्णार्पणमस्तु शुभमस्तु धन्यवाद बेनि धन्यवादः सर्वेषां धन्यवादाः धन्यवादः